श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध अथ सप्तमोऽध्यायः भरचरित्र श्रीशोकुवाच भरतस्तु महाभागवतो यदा भगवतालपरिपालनाय सिञ्चन्ति तस्तदनुशासनपर सन् पञ्चजनिं विश्वरुपदुहितरमुपं ये मे तस्यामुहवा आत्मजान् काष्णीनानोरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणी सुमतिं राष्ट्रभितं सुदर्शनमावरणं धुम्रकेतुमिति अजनाभं नामैतद्वर्षं भारतमिति यत्र आरभ्य व्यपदिशन्ति स बहुन्मिहिपते पिद्रे पितामहवदम् उर्वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजा स्वधर्ममनुवर्तमान पर्यपालयत् एजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुचावचये श्रद्धया हिताग्नेहोत्र दर्शपूर्णमास चातुर्मास्य पशुसोमानाम् प्रकृतिर्विकृतिभिः अनुशमनं चातुर्होत्रविधिना सम्प्रच्चरस्वनालायागेषु विरचताङ्गक्रियेष्वपूर्वं यत्नक्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवता लिङ्गानां मन्त्राणाम् अर्चनीयामकतया साक्षात्कर्त्रीं परदेवताया भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदुतकषायो हवि स्वन्धर्योर्भिगृह्यमाणेषु स यजमानो य॒ज्ञभागो देवतां सान् प्रसां वेष्वभ्यध्यायत एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभं वनमालारिदरं गदादिभिरुपलक्षिते निजपुरसहिल्लिखिते नात्मनि पुरुषरूपेण विरोचमाना उच्चैस्तरां भक्तिरनुदिनीं नेधमालरदया जायत वसितं एवं वर्षायुतसहस्रपर्यन्तावसितं कर्मनिर्वाणावसरोऽधिभज्यमानं स्वतनयेभ्यो रिक्थं पितृपैत्रामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतास्त्वग्निकेतात् पुलाश्रमं ब्रब्रव्राज यत्र भगवान हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यते इच्छारूपेण यत्रासमं पदान्योभयतो नाभिभेद्रे चक्रे चक्रनदी नाम चरित्रवरा सर्वतः पवित्रीकरोति तस्मिन् वावकिलस एकलहं कुलहाश्रमोपवनं विविधं विविधकुसुमं किशदय तुलसीकाम्बुभि कन्दमूलफलोपहारैश्च समीषां मानो भगवद् आरादनं विविक्त उपरतं दिशयाभिलाष उपभृतोपशमः परां नृविमम् अवाप तयेत्थम् अविरतं पुरुषपरिचर्यया भगवती प्रवर्धमानानुरागभरद्रूतहृदयशैथिल्य रहर्षवेगेनात्मन्योद्भिद्यमानां मानरोम पुलक कुशल औत्कण्ठ प्रविद्ध प्रणयवाष्वनिरुद्धावलोकनेन एवं निजरमणालं चरणारविन्दानुध्या ध्यानपरिचितभक्तियोगेन परिब्लुतं परमलां माद्गम्भीरहृदयहृदावगाढं धिषुणस्तामपि क्रियमाणाम् भगवत्सपर्यां न सस्मार एं धृतभगवतव्रत अैलेयाजिनं जटा कलापेन च विरोचमान सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहारे सूर्यमण्डलेभ्योपतिष्ठन्नेतदोवाच परोरजसवितुर्जातवेदो देवस्य भरगोपनसेदं जान सुरेतसाद पुनराविश्वचेष्टे हंसं व्यङ्गद्राणं निषदृङ्गे रामि महर्षि श्रीमद्भगवती महापुराणे परञ्चां सीतायां पञ्चमीस्कन्धे भरज्जरिते भगवद्परिचर्यायां सप्तमोऽध्यायः